श्रीमद्भागवत् महापुराणं सप्तं स्कन्ध यति धर्मका यतिधर्मकानिरूपण और अवधूत्प्रहला संवाद नारधुवाच कल्पस्त्वमेवं परिव्रज्य देहमात्रावशेषितः ग्रामैकरात्रविधना निरपेक्ष्यश्चरेमहिम् बिभ्रयाद्यद्य सौवासकपीनाच्छान्दनं परं त्यक्तं न दण्डलिङ्गादेह अन्यत् किञ्चिदनापदे एक एव चरिद्भिक्षुरात्मा रामो नपाश्रयः सर्वभूतः नारायणपरायणः पश्येदात्मन्यतो विश्वं परे सत्सतो आत्मानं च परं ब्रह्म सर्वत्र ससन्मये सुप्तप्रबोधयोः सन्धावात्मनो गतिमात्मधे वश्यन् बन्धं च मोक्षं च मायामात्रं न वस्तुतः नाभिनन्दे ध्रुवं मृत्युम् अध्रुवं वास सजीवितं कालं परं प्रतीक्षेत भूतानां प्रभुवाप्यम् नाथक्शास्त्रे सुसज्जेतनोपजीवेतजीविकां वादवादान् तजेतर्कान् पक्षं कं च न संशये न शिष्यानुपीतं ग्रंथान् नैवाभ्यसेद्बहून् न ना व्याख्यामुपयुज्येत नारम्भानारभते कुचीन् न ना यतेराश्रमः प्रायो धर्महेतुर्महात्मनः शान्तस्य समचित्तस्य विभ्रया दूतवात्यजेद् अव्यक्तलिङ्गोव्यक्तार्थो मनिष्युन्मत्त बालवत कविर्मुखभदात्मानं स दृष्टा दर्शयेणृणाम् अत्राप्युदाहरन्तीम् अमितिहासं पुरातनं प्रह्लादस्य च संवादं मुलिराजवरस्य च संशयानं धरोपस्थे कवीर्यां सयसानडी रजस्वलैस्तनुर्देशैर्निगूढां वलतेजसं ददर्श लोकाण्डचरन् लोकं तत्त्वविभीक्षया ऋतोमाद्यैकपिपयै प्रह्लादो भगवत्प्रियः कर्मणा कृतभिर्वाचालिङ्गैर्वर्णासमाधिभिर्न विन्दन्ते जनायं वै सोसा वितिभुं न वेति च तं नत्वार्भ्य च विधिवत् पादयो शिरसा स्पृशन् विविशूरिदमप्राक्षिन्महाभागवतोऽसुरः दिभर्षिकायं पीवानं सोऽद्यमो भोगुवान्यथा वित्तं चैवोद्यमवतां भोगो वित्तवतामिह भोगिनां खलु देहोऽयं पीवा भवति नान्यथा न ते शयानस्य यत एव भोगः अभोगिनोऽयं तव विप्रदेह अपि वाय तद्वदं न क्षमं चेत् कविकल्पो निपुणद्रीचित्रप्रियकथसमः लोकस्य कुर्वतः कर्म शेषे तद्विःखितापि वा नारदुवाच स इत्थं दैत्यपतिना परिपृष्टो महाभुटिः न मानन्तमभ्याः तद्वागमृतियन्तितः ब्राह्मण उवाच दे दे दमसुरश्रेष्ठ भवान्नन्वार्यसम्मतः इहो परमयो नृ रां तदान्यध्यात्मचक्षुषा यस्य नारायणो देवो भगवान् विद्गतः सदा भक्त्या केवलीयाज्ञानं धुनोति ध्वान्तमर्घुवत् तथापि भ्रूमहे प्रश्नान्तो राजन्यथा श्रुतम् सम्भावनीयो हि भवानात्मनः शुद्धिमिच्छतां तृष्णया भोवाहिन्या योग्यै कामैरपूरया कर्माणि कार्यमाणोऽहं नानायो निसंयोजितः यदिच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् स्वर्गापवर्गयोर्धारं तिरस्यां पुनरस्य च अत्रापि दम्पतीनां च सुखायान्यापनोत्तये कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययं सुखमस्यात्मनो रूपं सर्वैः परन्ति स्तनुः मनःस्पर्शजान् दृष्ट्वा भोगान् स्वप्स्यामि सम्भिशन् इत्येतदात्मनः स्वार्थं सन्तं विमृ विस्मृत्य भै पुमान् विचित्राम् असति द्वैते घोरामाप्नोति संस्कृतिं जलं तदुद्भवै छन्नं हित्वाज्ञो जलकाम्या मृगतृष्णामुपाधावे यथान्यत्रार्थक्षतः देहादिभिर्न्दैवतन्त्रै दे आत्मनसुखमिहतः दुःखात्रयं चानितस्य क्रिया मोघा कृता कृताः आध्यात्मिकादिभिर्दुःखैः अमुक्तस्य कर्हि चैर्मतस्य कृच्छोपतनैर् यथैकामैः कस्यावि धनिनां क्लेशं लुब्धानां जितात्मनां भयाद् लब्धनिद्राणां सर्वतो भीभिशङ्किनां राजस्तश्चोरतः शत्रोः स्वजनात् पशुभक्पक्षितः अर्थिभ्यः कालतः स्वस्मान् नित्यं प्राणार्थवद्भयं शोकमोहभयक्रोधरागक्लेभ्यः समादयः यन्मूलाशूनृलां देह्या स्पृहां प्राणार्थयोर्वृध मधुकारमहासर्पौ लोकेऽस्मिन्नो गुरुत्तमौ नैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयं विराग सर्वकाव्येभ्य शिक्षितो मे मधुव्रतात् तिथ्राप्तं मधुवृत्तं हत्वाप्यन्यो हरेत्पतिम् अनीयः परितुष्टात्मा यदिच्छोपणतादहं नो चेक्षये बहुहानि महाशीरेव सत्त्ववान् क्वचिदल्पं क्वचिद्भूरि भुञ्जेऽन्नं स्वादु स्वादु वा क्वचिद्भूरि गुणहीन मृतः क्वचित् तद्धियोपासितं क्वापि कदाचिन्मानवर्जितं भुञ्जे भुक्त्वा तस्म्यश्चेद्दिवा क्षौभं दुकूलमजिनं क्षीरं वल्कलमिभवा वसेऽन्यदपि सम्प्राप्तं दुष्टभोतुष्टधीरहं क्वचिच्छये धरोपस्थेत्रीणपर्णा भस्मसु क्वचित् प्रसादाद् पर्यङ्के कसिपौ वा परीक्षया क्वचित् स्नातो न लिप्ताङ्गसुवासा शृग्लङ्कृतः रते भास्सवैश्चरे क्वापि नाहं निन्देन च स्तोपि स्वभावः विषमं जनम् एतेषां श्रिय आशासेवुतैकात्म्यं महात्मनैः विकल्पं विकल्पं जुह्या चित्तौ तां मनस्य अर्थविभ्रमे मनोवैकारिके भूत्वा तन्मायां जुहोत्यनौ आत्मानुभूतौ तां मायां जुह्या सद्यदिग्मुनिः ततो निरैहो विरमेत स्वानुभूत्यात्मने स्थितः स्वात्मृतं वेत्थं ते सुगुप्तम् अपि वर्णितं व्यपेतं लोकशास्त्राभ्यां भवानिः भगवत्परः नारद्वाच धर्मं पारमहंसं वै मुने श्रुत्वा सुरेश्वरः पूजयित्वा तत प्रीत आमन्त्रप्रियो गृहं ते श्रीमद्भागते महाप्राणे पारंशां तेतायां सप्तमस्कुन्दे युधिष्ठिन्नारसंवादे यति धर्मे